नारदपुराणम् उत्तरार्थम् अध्यायम् 63 त्रि वसुरुवाच शृणुमोहिनि वक्ष्यामि माहात्म्यं वेदसम्मदम् प्रयागस्य विधानेन स्नात्वा यत्र विशुध्यति कुरुक्षेत्रसमागंगा यत्र तत्रावगाखिता तस्माद् दशगुणा प्रोक्ता यत्र विन्ध्येन सङ्गता तस्माच्छतगुणाप्रोक्ता काश्यामुत्तरवाहिनी काश्या शतगुणाप्रोक्ता काश्या गङ्गा यत्रार्कजान्विदा सहस्रगुणिदासापि भवेत् पश्चिमवाहिनी सा देवीदर्शना देवब्रह्महत्यादिहारिणी पश्चिमाभिमुखी गङ्गा कालिन्द्या सह सङ्गदा हन्दिकल्पशदं पापं सा माघे देवी दुर्लभा अमृतं कद्यदे भद्रे सा वेणी भुवि सङ्गदा यस्यां माखे मुहूर्तं तु दु, देवानामपि दुर्लभं पृथिव्यां यानि तीर्थानि पुर्यापुण्यास्तथा स्नादुमायान्दिता वेण्यां माघे मकरभास्करे ब्रह्मविष्णुमहादेव रुद्रादित्यमरुद्गणाः गन्धर्वा लोकपालाश्च यक्षकिन्नरगुह्यताः येचान्ये ये चान्ये तत्त्वदर्शिनः ब्रह्माणि पार्वती मेधादिति रः सर्वास्तादेवपन्त्यश्च तथा नाङ्गाङ्गणाः शुभे कृताचीमेनकारम्भाप्युर्वशी च तिलोत्तमा गणाश्चाप्सरसां सर्वे पितॄणां च गणास्तथा स्नादो मायान्दिते सर्वे मा के रम् चिजे कृते युगेश्वरूपेण कलौ प्रच्छन्नरूपिणः सर्वतीर्थानि कृष्णानि पापिनाम् संगदोषदः भवन्ति शुक्लवर्णानि प्रयागे माघ मज्जनाद मकरस्तेरवौ माघे गोविन्दाच्युतमाधवः स्नानेनानेन मे देव यथोक्तफलदो भव इमं मन्त्रं समुच्चार्य स्नायान्मौनं समाश्रुतः वसुदेवं हरिं कृष्णं माधवं च स्मरेत् पुनः तप्तेन वारिणा स्नानं यद्गृह्ये क्रियते नरैः षष्ट्याब्देन फलम् तद्धि मकरस्थे दिवाकरे बहिः स्नानम् तु वाप्यादौ द्वादशाब्दफलं स्मृतम् तदागे द्विगुणं तद्धि नद्यादौ तच्च दुर्गुणम् दशरथाधेवरवादेज महानद्यां च तच्छदम् चतुर्गुणशतं तच्च महानद्योत्तुसङ्गमे सहस्रगुणिदं सर्वं तद्भलं मकरीरवौ गङ्गायां स्नानमात्रेण प्रयागे तत्प्रकीर्तितं गङ्गां ये चावघाकन्ति माघे मासि सुलोचने चतुर्युगसहस्रं तेन पतन्ति सुरालयाद गुणितं माघे सहस्रं विधिनन्दिनि निर्दिष्टमऋषिभिस्नानं गङ्गायमुनसङ्गमे पा पौर्कैर्भुवि भारस्य दाहायेमं प्रजापदिः प्रयागं विदधे देवि प्रजानां चिदकां यया स्नानस्थानमिदं सम्यक् सिदासिधजलं किल पापरूप पशूनां हि ब्रह्मणा निर्मिदं पुरा सिता सिता तु या सरस्वत्या विदर्भिता तं मार्गं ब्रह्मलोकस्य सृष्टि कर्ता ससर्ज वै ज्ञानदो मानसे माको नदु मोक्षफलप्रदः सर्वपापप्रणाशनः वेदविद्भिर्विनिर्दिष्टम् इन्द्रलोकप्रदोहि सः सर्वमासोत्तमो माखो मोक्षदो बदरीवने पापः दुःखहरीज सर्वकामफलप्रदः रुद्रलोकप्रदो माखो नार्मदे परिकीर्तितः सरस्वदौखविध्वंसी सुखप्रदः सर्वलोकसुखप्रदः विशालफलदोमाको विशालाय प्रकीर्तितः पापेन्धनदवाग्निश्च गर्भवा सविनाशनः विष्णुलोकाय मोक्षाय जाह्नवः परिकीर्तितः सरयोर्गण्डकी सिन्धुश्चन्द्रभागा च कौशिकी तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका कावेरी तुङ्गभद्रा च यास्तदान्याः समुद्रगाः तासु स्नायी नरो यादि स्वर्गलोकं विकल्मषः नैमिषे विष्णुसारूप्यं पुष्करे ब्रह्मणेन्दिकम् आ कण्डलस्य लोका हि कुरुक्षेत्रे जमाकदः मा को देवहृदे देवी योगसिद्धिबलप्रदः प्रभासे मकरादित्ये स्नात्वा रुद्रगणो भवेद देविकायां देवदेहो नरो भवति माकदः माँख माकस्नानेन विधिजे गोमत्यां न पुनर्भवः हेमकूडे महाकाले ओङ्कारे ह्यपरे तथा नीलकण्डार्बुदे माघो लोकप्रदो मदः मा सर्वासां सरितां देविः सम्पूरो माकरे रवौ स्नानेन सर्वकामानां प्राप्त्यै ज्ञेयो माकस्तु प्राप्यते धन्यै प्रयागे विधिनन्दिनी अपुनर्भवदं तत्र सिधासिधलं यदः गायन्तिदेवासदं दिविष्ठा माघ प्रयागे किल नो भविष्यति स्नादनरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्ति च विष्णुसन्निधौ तीर्थैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृतं पुरा माघ प्रयागश्च तयोर्द्वयोरभून्माखो गरीयांश्च दुराननात्मजे वादाम्बुपर्णाशनदेकशोषण्णैस्तपोभिरुग्राैश्चिरकालसञ्जितैः योगैश्च संयाधि नरास्तु यां गतिं स्नानात् प्रयागस्य हि यान्दि तां गतिम् स्नाता ये माकरभास्करोदये तीर्थे प्रयागे सुरसिन्धुसङ्गमे तेषां गृहद्वारमलङ्करोदि भृङ्गावलीकुञ्जरकर्णताडिता यो राज्ञयाख्यसमध्वरस्य स्नानाध्वलं सम्प्रदधादि चाखिलम् पापानि सर्वाणि निखत्यलीलया नूनं प्रयागस कथं न वर्ण्यते चतुर्वेदिषु यत्पुण्यं सत्यवादिषु चैव हि स्नात एव तदाप्नोति गङ्गाकालिन्दिसङ्गमे तत्राभिषेकं गुर्वीदसङ्गमे शंसितव्रतः तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः पञ्चयोजनविस्तीर्णं प्रयागस्य दुमण्डलं प्रवेशादस्य भूमौ तु अश्वमेधः पदे, पदे तु जाह्नवी प्रयागस्य प्रवेशेन पापं नश्यति तत्क्षणात् मासमेकं नरस्नात्वा प्रयागे नियतेन्द्रियः मुच्यते सर्वपापेभ्यो यथा दृष्टं स्वयम्भुव शुचिस्तु प्रयदो भुक्त्वा हिंसकश्रद्धयान्वितः स्नात्वा मुच्येत पापेभ्यो गच्छेच्च परमं पदम् नैमिषम् पुष्करं चैव गोतीर्थसिन्धुसागरं गया च धेनुकं चैव गङ्गासागरसङ्गमः ये ते च ये च पुण्याशिलोच्चयाः दशतीर्थसहस्राणि त्रिंशत्कोटयस्तथा प्रयागे संस्थिता नित्यमेधमानामनीषिणः त्रीणि यान्यग्निकुण्डानि तेषाम् मध्ये तु जाह्नवी सर्वतीर्थपुरस्कृता तपनस्य सुधा देवी त्रिषु लोकेषु विश्रुता यमुना गङ्गाया सार्धं लोकपावनी गङ्गा यमुनयोर्मध्ये पृथिव्यां यत्परं स्मृतम् प्रयागस्य तुतीर्थस्य कलां नार्हन्ति षोडशीं तिस्रकोट्योर्धकोटी च तीर्थानां वायुरब्रवीद दिवि भुव्यक्षं च जाह्नव्यातानि सन्ति च प्रयागं समधिष्ठाय कम्बलाश्वतरावुभौ भगवत्यथवाचैषा वेदां वेद्या प्रजापदेहे तत्र वेदाश्च यज्ञाश्च मूर्तिमन्दः समास्थिताः प्रजापतिमुवास्सन्दे ऋषयश्च तपोधनाः यजन्ति क्रदुभिर्देवास्तथा चक्रधरास्सदि तदपुण्यतमो नास्ति त्रिषु लोकेषु सुन्दरी तत्र दृष्ट्वा तु तत्तीर्थम् प्रयागम् परमम् पदम् मुच्यन्ते सर्वपापेभ्यः शशाङ्क इव राहुणाम् ततो गत्वा प्रयागम् तु सर्वदेवाभिरक्षितम् ब्रह्मचारी वसन् मासम् पितृन् देवांश्च तर्पयन् ईप्सितल्लभदे कामान्यत्र तत्राभिसङ्गतः सिता सिते तु यो मज्जेदपि पापशदावृतः मकरस्थिरवौ माके न स भूतस्तु गर्भगफ दुर्जया वैष्णवीमाया देवैरपि सुधुस्त्यजा प्रयागे दह्यते साधु माके मासि विरिञ्चिजे तेषु तेषु च लोकेषु भुक्त्वा भोगाननेकषः पश्चाच्चक्रिणि लीयन्ते प्रयागे माघमज्जिनः उपस्पृशति यो माघे मकरार्के सितासिते तस्य पुण्यस्य सङ्ख्याम् नो चित्रभुक्तोऽपि वेत्यलम् राजसूयसहस्रस्य वाजपेयशतस्य च फलं सिदासिदे माखे स्नातानां भवदि ध्रुवम् आकल्पजन्मभिपापं सञ्चिदमनुजैस्तु यद् तद्भवेद्भस्मसान्माखे स्नातानां तु सिदासिदे गङ्गा यमुनयोश्चैव सङ्गमो लोकविश्रुतः स यैव कामिकं तीर्थं तत्र स्नानेन भक्तितः यस्य यस्य च यः कामस्तस्य तस्य भवेद्धि सह भोगकामस्य भोगास्युः स्याद्राज्यं राज्यकामिनः स्वर्गस्यात्स्वर्गकामस्य मोक्षस्यान्मोक्षकामिनः कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानि च तानि सर्वाणि सेवन्ते प्रयाकर्मकरे रवौ हरिद्वारे प्रयागे सागर संगमे स्नात्वाइव ब्रह्मणो विष्णो शिवस्य च पुरम् व्रजेत सितासिते दुयस्नानम् सुलोचने नदत्ते दत्ते पुनरावृत्तिम् कल्पको डिशतैरपि सत्यवादीजिदक्रोधो ह्य परमां श्रुतः धर्मानुसारि तत्त्वज्ञो गोब्राह्मणखितेरथः गङ्गायमुनयोर्मध्ये स्नादो मुच्येदखिल्विषाद मनसा चिन्तितान् कामां तत्र प्राप्नोति भार स्वर्णभारसहस्रेण कुरुक्षेत्रे रविग्रहे यद्भलं लभते माखे वेण्यां तत्तु दिने दिने गवांशतसहस्रस्य सम्यग्दत्तस्य यद्फलम् प्रयागे माघमासे दुत्र्याखं स्नातस्य तद्फलं योगाभ्यासेन यत् पुण्यं संवत्सर सदत्रये प्रयागे माघमासे दु त्रि अखं स्नानेन यद्फलं नश्वमेधसहस्रेण तद्फलं लभदे सति प्रियाष्टस्नानफलं माघे पुरा काञ्चनमालिनी राक्षसा यदौ प्रीत्या तेन मुक्तः स पापकृत पापक्षयो जातः सप्तविंशतिभिर्दिनैः स्नानेन यदभूत्पुण्यं तेन देवत्वमागदा रममाणादुकैलासे गिरिजाया प्रिया सखी तथा जादा प्रयागस्य प्रसादतः अवन्तीविषये राजा वास राजो भवत्पुरा नर्मदा तीर्थमसाद्य राजसूयं चकारसः अश्वैषोडशभिस्तत्र स्वर्णयूपविराजितैः स्वर्णभूषणभूषाढ्यैरेजे सोऽपि यथाविधि प्रददौ धान्यराशिं च द्विजेभ्यपर्वतोपमम् श्रद्धा वान्देवद भक्तो गोप्रदश्च सुवर्णदः ब्राह्मणो भद्रको नाममूर्को हीनकुलस्तथा कृषिवलोद्धमाचार सर्वधर्मबहिष्कृतः क्षीरकर्मसमुद्विघ्नो बन्धुभिश्च स वञ्चितः इतस्ततः परिक्रम्य निर्गतो दृष्टपीडितः दैवतो ज्ञानमाश्रित्य प्रयागं समुपागतः महामाखिं पुरस्कृत्य स स्नौ तत्र दिनत्रयम् अनखस्नानमात्रेण समभूत् सद्विजोत्तमः प्रयागचलितस्तस्माद्ययौ यस्मात् समागतः स राजा सोऽपि वै विप्रो विपन्नावेकदा तदा तयोर्गतिसमा दृष्टा देवराजस्य सन्निधौ तेजोरूपं बलं स्त्रयिणं देवयानां विभूषणम् माला च परिजादस्य नृत्यं गीतं समं तयोः इति दृष्ट्वा हि माहात्म्यक्षेत्रस्य कथमुच्यते मा माहा कीदासिदे भद्रे राजसूयसमो न च धनुर्विंशतिविस्तीर्णे सितनीलाम्बुसङ्गमे मा कादपुनरावृत्ती राजसूयात् पुनर्भवेद् कम्बलाश्वतरौ नाग्नौ विपुले यमुनातडे तत्र स्नात्वा जपित्वा च सर्वपापैः प्रमुच्यते तत्र गत्वा च संस्थाने महादेवस्य धीमदः नरस्तारयदे पुंसो दशा पूर्वान् दशावरान् कूपं चैवतु तत्रास्ति प्रदिष्ठाने दिविश्रुतम् तत्र स्नात्वा पितृन्देवान् सन्तर्प्य यतमानसः ब्रह्मचारीजिदक्रोधस्त्रिजात्रं योऽत्र तिष्ठति सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेद उत्तरेण प्रतिष्ठानात् भागीरध्याश्च कुर्वतः हंसप्रतपनं नाम तीर्थं लोकेषु विश्रुतम् अश्वमेधफलं तत्र स्नानमात्रेमलभ्यते यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ततो भोगवतीं गत्वा वासुकेरुतरेण च दशाश्वमेधिकं नाम तत्तीर्थं परमं स्मृतम् यत् तत्र कृत्वाभिषेकं तु वाजिमेधफलं लभेद धनाढ्यो रूपवान् दक्षो दादा भवति धार्मिकः चतुर्वेदिषु यत् सत्यवादिषु यत्फलम् अहिंसायां तु यो धर्मो गमनास्तस्य तद्फलम् यतेश्चोत्तरे कूले प्रयागस्य तु दक्षिणे ऋणमोचनकं तु परमम् स्मृतम् एकरात्रोषितस्नात्वा ऋणैः सर्वैः प्रमुच्यते स्वर्गलोकमवाप्नोद्दिक्ष्यमरश्च तथा भवेद त्रिकालमेकस्नायी य आचरेत् विश्वासखादपापात्तुतृभ्यर्मासै स क्षुध्यति कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति अवगाह्य च पीत्वा च पुनात्या सप्तमं कुलं मतरस्तेरवौ माके न स्नात्यनुदिदेरवौ कथं पापै प्रमुच्येत कथं वा तृदिवं व्रजेत प्रयागे वपनं कुर्यात् गङ्गायां पिण्डपादनं दानं दद्यात् कुरुक्षेत्रे वाराणस्यां तनुं त्यजेद् किं गया पिण्डदानेन काश्यां वा मरणेन किं कुरुक्षेत्रदानेन प्रयागे मुण्डनं यदि संवत्सरं द्विमासोनं पुनस्तीर्थं व्रजेद्यदि मुण्डनं चोपवासं च ततो यत्नेन कारयेद प्रयाग प्रयागप्राप्तनारीणां मुण्डनद्वेव मीरयेद् सर्वान् केशान् समुद्धृत्य चेदये दङ्गुलद्वयं केशमूलान्युपाश्रित्य सर्वपानि देहिनां तिष्ठन्ति तीर्थस्नानेन तस्मात् तान्यत्र वापयेत् अमार्कपादश्रवणेर्युक्ता चेत्पौषमाखयोः अर्धोदय स विज्ञेयत्सूयपर्वशताधिकः किञ्चिन्न्यूने विधिजे महोदय इति स्मृतः अरुणोदयवेलायाम् शुक्ला माघस्य प्रयागे यदि लभ्येत सहस्रार्कग्रहैः समा अयने कोटिपुण्यं स्याल्लक्षम् तु विशुवे फलम् षडशीत्या सहस्रं तु तथा विष्णुपदीषु च दानं प्रयागे कर्तव्यम् यथा विभवविस्तरम् तेन तीर्थफलं चैव वर्धते विधिनन्दिनि गङ्गायमुनयोर्मध्ये यस्तु गां वै सुवर्णं मणिमुक्तां वा यदि वान्यं प्रतिग्रहं पाडलां कपिलां भद्रे यस्तु तत्र प्रयच्छति स्वर्णशृङ्गीं द्रौप्यघुरां चैलकण्डीं पयस्विनीं स वत्सां श्रोत्रियं साधुं ग्राहयित्वा यथाविधि शुक्लां वरधरं शान्तं धर्मज्ञं वेदपारगम् सा च गौस्तस्य दादव्या गङ्गा यमुनसङ्गमे वासांसितमहार्षाणि रत्नानि विविधानि च यावन्तो रो मकोपास्युत्तस्य गो वत्सकस्य च तावद्वर्षसहस्राणि स्वर्गलोके महीयते यत्रा सौलपदे जन्म सा गौस्तत्राभिजायते न च पश्यन्ति नरकं धातारस्य न कर्मण उत्तरांश्च कुरून् प्राप्य मोदन्ते कालमक्षयम् गवांशतसहस्रेभ्यो दद्यादेकां पयस्विनीं पुत्रान् धारांस्तधा भृत्यान् गौरेका प्रदितारयेत् तस्मात् सर्वेषु दानेषु गोदानं तु विशिष्यते दुर्गमे विषमे घोरे संक्रमे गौरे वरक्षाम् गुरुदे तस्माद्दे या द्विजोत्तमे तीर्थे न प्रतिगृह्णी यत् पुण्येष्वायतनेषु च निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेद्विजः स्वकार्ये पितृकार्ये वा देवताभ्यार्चनेऽपि वा विभलं तस्य तत्तीर्थ यावत्तद्धनमश्नुते गङ्गायमुनयोर्मध्ये यत्तु कन्याम् प्रयच्छति न स पश्यति तु नरकं तेन कर्मणा उत्तरांस्तु कुरून् गत्वा मोददे कालमक्षयम् पुत्रान् दारांश्च लभदे धार्मिकान् नूपसंयुधान् अधशिरास्तदो धूममूर्धू बाहु पिबेन्नरः शतं वर्षसहस्राणां स्वर्गलोके महीयते परिभ्रष्टस्ततः स्वर्गादग्निहोत्री भवेन्नरः भुक्त्वा तु विपुलान् भोगांस्तर्थं लभते पुनः आप्रयागात् प्रधिष्ठानान् मत्पुरो वासुकेर्ग्रहाद कम्बलाश्वतरौ नागौ नागादबहु मूलकाद ये दत्प्रजापदेके क्षेत्रं त्रिषु लोकेषु विश्रुतं तत्र स्नात्वादिवं यान्ति ये मृतास्ते पुनर्भवः न वेदवचनाच्च न लोकवचनादपि मदिरोत्क्रमणीया हि प्रयागमरणम् प्रति दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः तत्रैव तेषाम् सान्निध्यम् कीर्तितम् विधिनन्दिनी या सत्पदस्थस्य धीमदः सागदित्यजतः प्राणान् गङ्गायमुनसङ्गमे बाधितो यदि वादिन क्रुद्धो वापि भवेन्नरः गङ्गायमुनमासाद्य यस्तु प्राणान् परित्यजेदीप्तकाञ्चनवर्णाभयविमानैः सूर्यकान्तिभिः गन्धर्वाप्सरसामध्ये स्वर्गे मोदधि मानवः ीप्सि तल्लभदे कामान्वदन्तीति मुनीश्वरः गीतवादित्र निष्कोषाय प्रसुप्तः प्रतिबुध्यते यावन्न स्मरदे जन्म तावत्स्वर्गे महीयते तदस्वर्गात् परिभ्रष्टः क्षीणकर्मात्र चागतः हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले तदेव संस्मरं तत्र विष्णुलोकम् स गच्छति वडमूलम् समासाध्य यस्तु प्राणान् परित्यजेद् सर्वलोकानधिक्रम्य रुद्रलोकम् स तत्र ते द्वादशादित्यां स्तपन्ते रुद्रमाश्रिताः निर्गच्छन्ति जगत् सर्वम् वडमूले स दह्यते भगवांस्तत्र प्रजापति पुरस्कृतः आस्ते तत्र पुडे देवि पादाङ्गुष्ठं दयञ्चिषुः वशीपुलिने रम्ये विपुले हंसपाण्डुरे परित्यजति यः प्राणान् शृणु तस्यापि यत्फलं षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च वश्येत् स स्वर्गलोके विरिञ्चिजे उर्वशीं च पश्ये देवलोके पश्येदेवलोके सुलोचने पूज्यते दे सददम् देवऋषिगन्धर्वकिन्नरैः तद स्वर्गात् परिभ्रष्टः क्षीणकर्मात्विहागतः उर्वशी सदृशीनाम् तु कान्तानां लभते शदम् मध्ये नारीसहस्राणाम् बहूनाम् च पतिर्भवेत् दशग्रामसहस्राणां भोक्ता शास्ताजमोहिनी काञ्जी नूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते भुक्त्वा तु विपुलान् भोगांस्तत्तीर्थं लभते पुनः शुक्लं वरधरो नित्यं नियतः स जितेन्द्रियक का। यककालं दु भुञ्जानो मासं सुवर्णालङ्कृतानां तु नारीणां लभते शतम् पृथिव्यामसमुद्रायां महाभोगपतिर्भवेद् धनधान्यसमायुक्तो दादा भवति नित्यशः स भुक्त्वा विपुलान् भोगांस्तत्तीर्थस्मरदे पुनः कोटितीर्थसमासाद्य यस्तु प्राणान् परित्यजेद् कोटिवर्षसहस्रान्तं स्वर्गलोके महीयते ततः स्वर्गाधिका गत्यक्षीणकर्मा नरोत्तमः सुवर्णमणिमुक्ताग्रे कुले ज्यायेदरूपवान् अकामो वा स कामो वा गङ्गायां यो विपद्यते शक्रस्य लभते स्वर्गं नरकं तु न पश्यति कंससारसयुक्तेन विमानेन स गच्छति अप्सरोगणसङ्कीर्णे सूक्तोऽसौ प्रतिबुध्यते तद् स्वर्गादिहायातः क्षीणकर्मा विरिञ्चिजे योगिनां श्रीमदां चापि स्वेच्छया लभते जनिं गङ्गा यमुनयोर्मध्ये करीषाग्निं तु धारयेद् अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः या वन्दिलोमगूपानि तस्य गात् ेदु धीमतः तावद्वर्षसहस्राणि स्वर्गलोके महीयते तदस्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेद् भुक्त्वा तु विपुलान् भोगांस्तत्तीर्थं लभते पुनः यस्तु देहं निकृत्य स्वं शकुनिभ्य प्रयच्छति सवर्षशतसाहस्रं सोमलोके महीयते ततस्तस्मादिहागत्य राजा भवति धार्मिकः गुणवान्नरूप सम्पन्नो विद्यावान् प्रियवाक्शुचिः भुक्त्वा तु विपुलम् भोगांस्तत्तीर्थम् पुनराव्रजेद पञ्चयोजनविस्तीर्णे प्रयागस्यदु मण्डले विपन्नो यत्र कुत्राप्यनाशकम् व्रतमस्थितः व्यतीतान् पुरुषान् सप्त भाविनस्तु चतुर्दश नरस्तारयदे सर्वानात्मानं च समुद्धरेद अग्नितीर्थमिधि ख्यातं दक्षिणे यमुनातडे पश्चिमे धर्मराजस्य तीर्थं दुनरगं स्मृतं तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः यमुनोत्तरकूले दुः पापध्नानि तीर्थानि सन्धिविधिजे सेवितानि मुनीश्वरैः तेषु स्नादादिवं ये मृतास्ते पुनर्भवाः गङ्गा च यमुना चैव उभे तुल्यफले स्मृते केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति तेन दत्तेन योगो सर्वकामफला वृक्षास्तिष्ठन्ति ऋषयो गदाः स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे क्रीड्यदे सिद्धगन्धर्वैः पूज्यदे त्रि दशैस्तथा ततः पुनरिका यादो जम्बुद्युबीपपतिर्भवेद पा धर्मात्मागुणसम्पन्नस्तत्तीर्थलपदे पुनः यदत्ते सर्वमाख्यादम् माहात्म्यं च प्रयागजम् सुखद मोक्षदं सारं किमन्यच्छोतुमिच्छसि इति श्रीबृहन्नारदीयपुराणोत्तरभागे बृहदुपाख्याने प्रयागमाहात्म्ये त्रिषष्टितमोऽध्यायः इति प्रयागमाहात्म्यम् समाप्तम् ओम्